इदम् त्वकार्यम् कुरु वीरमध्ये रजस्वलां यत्परिकर्षसेमाम् माम् न चापि कश्चित् कुरुतेऽत्र कुत्सां धिगस्तु नष्टः खलु भारतानाम् धर्मस्तथा क्षत्रविदां च वृत्तम् यत्र प्रेक्षन्ति सर्वे कुरवः द्रोणस्य भीष्मस्य च नास्ति सत्त्वम् क्षत्तुस्तथैवास्य महात्मनोऽपि राज्ञस्तथा हीममधर्ममुग्रम् न लक्षयन्ते कुरु वृद्धमुख्याः इमम् प्रश्नमिमेऽब्रूत सर्व एव सभासदः जितां वाप्यचितां वा माम् सर्वभूमिपाः वैशंपायन उवाच यथा करुणं सुमध्यमा भर्तॄन्कटाक्षैः कुपितानपश्यत् सा पाण्डवान्कोपरीतदेहान् सन्दीपयामास कटाक्षपातैः हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव यहापमीतेन कृष्णकटाक्षेण बभूव दुख दुस्सासनचा समीक्ष्यमेक्षा कृपण्न पतींताधूयेगन विसकवाच दसीति हसन सद कर्णस्तु तद्वाक्यम हृष्ट सामूजयामास सा हसन सद गाधारराज सुबह पुत्रस्त दुशाससनमभ्यनंद्र बभूरनेभ्या मृते धातराष्ट्रेण तूखमतीव कृष्ण दृष्ट्वा सभायां पीकृष्यीष न धर्मसौक्ष्म्यात् सुभगे विवेक्तु शक्नोमि ते प्रश्निमिमम् यथावत् अस्वाम्यशक्तः पणितुम् परस्वम् स्त्रियाश्च भर्तुर्वसताम् समीक्ष्य त्यजेत सर्वाम् पृथिवीम् समृद्धाम् युधिष्ठिरो धर्ममधो न जह्यात् उक्तम् च पाण्डवेन तस्मान्न शक्नोम विवेक्तुमेतत् द्यूते द्वितीयस्य कुनिर्नरेषु कुन्ती सुतस्तेन निसृष्टकामः न मन्यते ताम् निकृतिं युधिष्ठिरस्तस्मान्नते प्रश्नमिमम् आहूय राजाकुशलैरनार्यैर्दुष्टात्मभिर्नैः कृतिकैः सभायां द्यूतप्रियेर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः अशुद्धभावैर्निकृतिप्रवृत्तैरबुध्यमानः कुरु पाण्डवाग्र्यः सम्भूय सर्वैश्च जितोऽपि यस्मात् कैतवमभ्युपेतः तिष्ठन्ति चेमे कुरवः सभायामी सा सुतानां च तथा स्नुषाणां समीक्ष्य सर्वे मम चापि वाक्यं बिब्रूत मे प्रश्नमिमं यथावत् न सा सभा यत्र न सन्ति वृद्धा न ते वदन्ति धर्मं नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यम् यच्छलेनानुविद्धम् वैशम्पायन उवाच तथाब्रुवन्तीम् करुणं रुदन्तीमवेक्षमाणाम् कृपणान् पतीं स्तान् दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाच मधुराणि चैव ताम् कृष्यमाणाम् च रजस्वलाम् च स्रस्तोत्तरीयामतदर्हमाणाम् वृकोदरः प्रेक्ष्य युधिष्ठिरञ्च चकारकोपम् परमार्तरूपः इति श्रीमहाभारते सभापर्वणि द्यूतपर्वणि द्रौपदीप्रश्ने सप्तषष्टितमोऽध्यायः